हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीमदध्यात्मरामायणे युद्धकाण्डे चतुर्दश स्वर्गः श्रीमहदेव उवाच पातयित्वा ततश्चक्षु सर्वतो रघुनन्दनः अद्रवीन् मैथिलीं सीताम् राम च श्रीनिभाननाम् त्रिकोट शिखराग्रस्थाम् पश्यलङ्काम् महाप्रभाम् एतां मरणभुवम् पश्य मासकार्दमपङ्गलाम् असुराणाम् प्लवङ्गानाम् अत्र वैशस नमः अत्र मे निहत शेते रावणो राक्षसेश्वरः कुम्भकर्णेन्द्रजिन्मुख्या सर्वे चात्रा निपासितः एष सेतुर्मया बद्ध सागरे सविलाशये एतच्च दृश्यते सागरस्य सागर से महात्म से ख्यात त्रैलोक्य चूजित पवित्रम बरम दर्शना पात्र अमेश मैं शंभ प्रतिष्ठि अम शरण प्राप्त मंत्रिच विभीषण सुग्रीव नगरी किष्किन्धा चित्रकानना तत्र रामाज्ञय तारा प्रमुखा हरियोषितः आनयामास सुग्रीव सीतायात्रियकाम्यया ताभेतुम् सहस्थितम् शीघ्रम् विमानम् प्रेक्ष्य राघव सह चाद्री मृश्यमोकम् पश्य बाल्यत्र मे हतः नाम राक्षसा येत्र मेहतः ऐरक्तस्य सुतीक्ष्णस्य पश्याश्रमपदे शुभे एते ते तापसा सर्वे दृश्यन्ते वरवर्णिनी असौ शैले वरो देवी चित्रकूटः प्रकाशते अत्र मां कैके कै पुत्र प्रसादयितुमागतः भरद्वाजाश्रमम् पश्य दृश्यते यमुनातटे एषा भागीरथी गंगा दृश्यते लोकपावनी एषा सा दृश्यते सीते सरयूर्यपमालिनी एषा सा दृश्यते योध्याम् <coughs> प्रणामन् कुरु भामिनी एवम् क्रमेण सम्प्राप्तो भरद्वाजाश्रमम् हरिः वर्षे पञ्चम्याम् रघुनन्दनः भरद्वाजम् मुनिम् दृष्ट्वा ववन्दे सानुजः प्रभु सप्रच्छय सा मुनिमासीनम् विनयेन रघुत्तमः शृणोषि कश्चित् भरतः कुशल्यासे सहानुजः सुभीक्षा वर्तते योध्या जीवन्ती च हि मातरः श्रुत्वा रामस्य वचनम् भरद्वाज प्रवृ्यधि सह सर्वे कुशलीन भरतस्तु महामन फलमूल कृता हटा वल्कलधारक पादुक सकल न्य राज्यम तां सुप्रतीक्षते दया कर्म दंडके रघुनंदन रक्षसा विनाशं सीता हूं सर्वं ज्ञातं मया राम तपसा ते प्रसादतः सम्ब्रह्म परमम् साक्षात् आदिमध्यान्तवर्जितः समग्रे सलिलं सृष्ट्वा तत्र सुप्तोऽसि भूतकृत् नारायणोऽपि विश्वात्मन् नराणामन्तरात्मकः सन्नाभिकमलोत्पन्नो ब्रह्मालोकपितामह अत तम् जगतामीश सर्वलोकनमस्कृतः तं विष्णुजानकी लक्ष्मी शेषोऽयम् लक्ष्मणाभिध आत्मना सृजसी नन्दम् आत्मन्नवात्ममायय न सज्जसे न भोवत्वम् चित् शक्त्या सर्वसाक्षिकः बहिरन्त च भूतानाम् तमेव रघुनन्दन पूर्णोऽपि मूढदृष्टीनाम् विच्छिन्न इव लक्ष्यते जगत् त्वम् जगताधार त्वमेव परिपालकः त्वमेव सर्वभूतानाम् भोक्ता भोजम् जगत्पते दृश्यते श्रूयते यद्यत् स्मर्यते वा रघुवत्तम् त्वमेव सर्वम् अखिलम् सद्विनान्यत्नन्न किञ्चन माया सृजति लोकाश्च स्वगुणैः मादिभिः स्वच्छक्ति प्रेरिताराम तस्मात् सयुः पचर्यते यथा चुम्बकसान्निध्यात् चलन्त्ये वा य सादयः जरा तथा त्वया दृष्टा माया सृजति वै जगत् देहद्वयम् अदेहस्य तव विश्वम्क्षिच्छो विरासूरम् शरीरम् ते सूत्रम् सूक्ष्मम् हृतम् विराज सम्भवन्त्ये ते अवतारा सहस्रशः काल्यन्ते प्रविशन्त्येव विराजम् रघुनन्दन अवतार कथाम् लोके ये गायन्ति गृणन्ति च अनन्य मनसो मुक्ति तेषामेव रघुत्तम तम् ब्रह्मणा पुरा भूमे भारहाराय राघव प्रार्थितः स तपसा तुष्टं जातो रघुकुले देवकार्यम् अशेषेण कृतं श्रीरामदुष्करम् बहुवर्ष सहस्राणि मानुषम् देहमाश्रितः कुर्वन् दुष्कर कर्माणि लोकद्वयहिताय च पापहारीणी भुवनम् यशसा पूरयिष्यसि प्रार्थयामि जगन्नाथ पवित्रम् गुरु मे गृहम् स्थित्वा च भुक्त्वा सबल कोगमेशसिपत्तनम् तथेति राघवो तिष्ठन् तस्मिन्नाश्रम उत्तमे स्वसैन्य तेन सीतया लक्ष्मणेन च ततो रामय चिन्तयित्वा मुहूर्तम् प्राह मारुतिं इतो गच्छे हनुमन्तम् अयोध्याम् प्रति सत्वरः जानीहि कुशली कश्चित् जनो नृपति मन्दिरे शृङ्गवेरे पुरम् गत्वा गृहि मित्रम् गृहम् गृहम् मम जानकी लक्ष्मणोपेतम् आगतम् माम् नन्दी ग्रामम् ततो गत्वा भ्रातरम् भरतम् मम दृष्ट्वा ब्रूहि सभार्यस्य सद्भ्रातु कुशलम् मम सीतापहरणादीनि रावणस्य वधादिकम् ब्रूहि क्रमेण मे भ्रातु सर्वम् तत्र विचेतितम् हत्वा शत्रुगुणान् सर्वान् स भार्य उपयाति समृद्धार्थ स वृक्ष हरीश्वरैः इत्युक्त्वा तत्र वृत्तान्तम् भरतस्य विजेष्टितम् सर्वम् ज्ञात्वा पुनः शीघ्रम् आगच्छ मम सन्निधिम् तथेति हनुमान् तत्र मानुषम् बपुरास्थितः ययो तूर्णम् वायुवेगेन मारुतिः गरुत्मान् निववेगेन जिघ्रुक्षन् भुजुगोत्तमम् शृङ्गवीरपुरं प्राप्य गुहमासाद्य मारुतिः मधुरं वाक्यम् वाच्यम् प्रवृष्टेनान्तरात्मना रमोदाश्रुति श्रीमान् सखापि सहसीतया सलक्ष्मणस्तां धर्मात्मा केमी कुशलमब्रवीत् अनुज्ञातोऽद्य मुनिना भरद्वाजेन राघवः आगमिषति तम् देवम् द्रक्षसि त्वं रघुत्तमम् एवम् उक्त्वा महातेजा सम्प्रवृष्टहम् उत्पपात महावेगो वायुवेगेन मारुतिः स्व्रामतीतं च सरयूं च महानदीं तामतिक्रम्य हनुमान् नन्दे ग्रामं ययोमुदा क्रोशमात्रे त्वयोध्याया क्षीरकृष्णाजिनाम्बरम् ददर्श भरतम् दीनम् कृशमात्र समवासिनां मलपङ्क विदिग्धाङ्गम् जटिलम् वल्कलाम्बरम् फलमूल कृतारम् रामचिन्तापरायणम् पादुकेते पुरस्कृत्य शासयन्तम् वसुन्दरम् मन्त्रिभिः पौरमुख्ये च काचायाम् वरधारिभिः वृतदेहम् उर्त मूर्तिमन्तम् साक्षाद्धर्मम् विवर्तितम् उवाच प्राञ्जलिर्वाक्यम् हनुमान् मारुतात्मजहे यन्तम् चिन्तयते रामम् तापसम् दण्डके स्थितम् अनुशोचिकाकुत्स सत्वाम् कुशलम् अब्रवीत् प्रियमाख्याहिते देव शोकम् च जय सुदारुणम् अस्मिन् मुहूर्ते भ्रात्रा त्वम् रामेण सह सङ्गतः समरे रावणम् हत्वा राम सीतामवाक्य च उपयासि समृद्धाथ सीता सः लक्ष्मणः एवम् उक्तो महातेजा भर हर्ष मूर्चि पात भुवि चास्थ कैके प्रियनंदन आलिंग्य भरत शीघ्र मारुति आनंदज्रुजल शिशे भरत कपि देवो वाषो वातम अनक्रोशा दिया सौम्य दराबी बुवत प्रिय गवांशतसहस्रं च ग्रामाणां च सुसंवरं सर्वभरणसम्पन्ना मुग्धा कन्या सुजोडशः एवं भुक्त्वा पुनप्रह भरतो मारुतत्मजम् बहूनि मानि वर्षाणि गतस्य सुमहध्वनं शृणु व्यहं प्रीतिकरं मम नाथ कीर्तनं कल्याणी बतगाथेयम् लौकिके प्रतिभाति मे एते जीवन्तमानन्दो नरं वर्च तदपि राघवस्य हरिणां च कथम् आसीत् समागमः तत्त्वमाख्या हि भद्रं ते एव मुक्तोथ हनुमान् भरतेन महात्मना आचक्षेथ रामस्य चरितं कृष्णशक्रम श्रुत्वा तु परमानन्दम् भरतो मारुतात्मजा अध्यापय चत्रूणम् बुधायुक्तम् बुधान्वितः दैवतानि च यावन्ति नगरे रघुनन्दन नानोपहारबलिभिः पूजयन्तु महाधिय सूता वैतारिकाश्चैव बन्दिन स्तुतिपाठकः वार मुख्या च शतशो निर्यान्तद्दैव सङ्घः राजदारा तथा मात्या सेना हस्यैश्वपत्तयः ब्राह्मणाश्च तथा पौरा राजानो ये समागताः निर्यातुरागवस्याद्य द्रष्टुं शशि निवानम् भरतस्य एव च श्रुत्वा अलञ्चक्र च नगरीम् मुक्तारत्नमयोज्ज्वलै तोरणै च पताकाभि विचित्राभि अनेकधा अलङ्कुर्वन्ति भीष्मानि नानाबली विचक्षणह, निर्यान्ति वृन्दश सर्वे राम दर्शनलालसः अयानाम् चतुसहस्रम् गयानाम् मयुतं तथा रथानाम् दशसहस्रम् शरणसूत्रविभूषितम् पारैश्चिन्निपादाय द्रव्याणुचावजानि च ततस्तु शिबिकारूढा निर्ययूराजयोषितः भरते पादुकेन्यस्य शिरस्येव कृताञ्जलिः शत्रुघ्नसहितो रामम् पादचार्येण निर्ययो तदैव दृश्यते दूरात् विमानम् चन्द्रसन्निभं पुष्पकम् सूर्यसंकाशं सङ्काशम् मनसा ब्रह्म वीरो वैदेह्या रामलक्ष्मणौ सुग्रीवश्च कपि श्रेष्ठो मन्त्री भीश्च विभीषण हे दृश्यते पश्यत जना इत्याहे पवनात्मज ततो हर्ष समुद्भूतो स्त्रिबाल इव बुद्धानाम् रामोऽयमिति कीर्तनात् रथकुञ्जरवाजि स्था अवतीर्य महिं गतः जनासोमं विमानस्थम् जना भरतो भूत्वा प्रवृष्टो राघवोन्मुखः ततो विमानाग्रगतम् भरतो राघवम् मुदे प्रणतो रामम् मेरुर्थम् इव भास्करम् ततो रामाभ्यनुज्ञातम् विमानम् अपतद्भुवि आरोपितो विमानम् तत भरत सानुजसदा राममासाद्य मुदित पुनरेवाभ्यवादय समुत्थाप्य चिरादृष्टम् भरतम् रघुनन्दनः भ्रातरम् साङ्कमारोप्य मुदा तम् परिषत् स्वजे ततो लक्ष्मणमासाध्य वैदेहिम् नाम कीर्तयम् अभ्यवादे तत्प्रेतो भरतः प्रेमविह्वलः सुग्रीवम् जामवन्तम् च युवराजम् तथाङ्गदम् मैन्द द्विविधनीलाश्च वृषभम् चैव सस्वजे सुषेणम् च नरम् चैव गवाक्षं गन्धमादनम् शरभम् पनसम् चैव भरतः परिसे सर्वेते ते मानुषं रूपं कृत्वा भरतमादृता सप्रच्छु कुशलं सोम्या प्ररुष्टा च प्रवङ्गमः तथा सुग्रीवमालिङ्ग्य भरतः प्राह भक्तितः स्वयेन रामस्य जयो भू द्रावणो हतः तम्भस्माकं च तुरणां तु भ्राता सुग्रीव पञ्चमः चत्रुघ्नश्च तदा अभिवाद्य स लक्ष्मणम् सीताया चरणो पश्चात् वन्दे विनयान्वितः रामो मातरमासाद्य विवर्णां शोकविह्वलां जग्राह प्रणतपादौ मनो मातुः प्रसादयन् कैकेयीं के च सुमित्रां च न भरत पादुके तो राघव से सुपूज योजयामस राय पादर्भक्तियुते राजभूत मैया नियायी तम तव अद मे सफल जन्म फलि मे मनोरथ यश्यात अयोध्या तामहम प्रभो कोष्ठागारम् बलम् कोशम् कृतम् दश मया तत् तेजसा जगन्नाथ पालयस्व पुरम् सकम् इति ब्रुवाणम् भरतम् दृष्ट्वा सर्वे कपीश्वराय मम चो नैत्र्यम् तोयम् प्रशन्तो मुदम् प्रशशन्तुर्मुदान्विता ततो राम प्रवृष्टात्मा भरतम् साङ्कम् मुदाय ययो तेन विमानेन भर्तस्याश्रमम् तदा अवरुह्य तदा रामो विमानाग्र्यान्महीतलम् अब्रवीत् पुष्पकम् देवो गच्छ वैश्रवणम् वः अनुगच्छ अनुजानामि कुबेरम् धनपालकम् रामो वसिष्ठस्य गुरोपदामुजम् नत्वा यथा देवगुरोशतकृतु तत् स्वामहार्हास नमोत्तमं उपा गुरो उपाविवेशार्थ समीपत इति श्रीमद् ध्यात् रामायणे मा मयूरसंवादे युद्धकाण्डे चतुर्दश सर्ग श्रीसीतारामचन्द्रार्पणमस्तु